हरि ओं श्रीसीतारामचन्द्राभ्य नमः अथ श्रीमदध्यात्मरामायणे सुन्दरकाण्डे द्वितीय स्वर्गः ततो जगामः हनुमान् लङ्कां परमशोभनां रात्रौ सूक्ष्मनुर्भूत्वा बभ्राम परितपुरीं श्रीतान्वेषणकार्यार्थी प्रविवेशे ृपालयम् तत्र सर्वप्रदेशेषु विविच्य हनुमान् कपिः नापश्य जानकीं स्मृत्वा ततोऽलङ्काभिभाषितम् जगामये हनुमान् शीघ्रम् अशोकवनिकां शुभाम् सुरपादपसंबाधाम् रत्नसोपानवापिकाम् नानापक्षिमृगाकीणां स्वर्णप्रासाद शोभिताम् शाखाग्र पादपै परिवारिताम् विचिन्वन् जानकीं तत्र प्रतिवृक्षम् मृत्सुतः ददर्शाभ्रं लिहं तत्र चैत चैत्यप्रासादमुत्तमम् दृष्ट्वा विस्मयमापन्नो मुनिस्तम्भ शतान्वितं समतीत्य पुनर्गत्वा किञ्चिद्दूरम् समारुति ददर्शे शिञ्चपावृष्टम् अत्यन्तनिविडच्छदम् अधृष्टा तपमाकिरणम् स्वर्णवर्णभिहङ्गमम् तन्मूले राक्षसी मध्ये स्थिताम् च नयकनन्दिनीम् ददर्शे हनुमान् वीरो देवतामिव भूतले एकवेणीम् कृशाम्बीनाम् धारिणीम् भो मोषयानां चोचन्तीं राम रामेति भाषिणीं त्रातारं नाधिगच्छन्तीम् उपवास कृशां शुभां शाखां गच्छद मध्यस्थो ददश कविकुञ्जर कृतार्थोऽहं कृतार्थोऽहं दृष्ट्वा जनकनन्दिनीं मयैव साधितं कार्यम् रामस्य परमात्मनः ततः किल किल शब्दो बभूवान् तत्पुराद् बहिः किमेते वृक्षपत्रेषु मारुतिः आयन्तम् रावणं तत्र त्रिजनैः परिवारितं दशास्यं विंशति भुजम् नीलाञ्जनचयोपमम् दृष्ट्वा विस्मयमापन्न रावणो राघव राघवेणाशु मरणम् एकथम् भवेत् सीताथम् अपि नायाति रामः किम् कारणम् भवेत् इत्येवम् चिन्तयन् नित्यम् रामम् एव सदा तस्मिन् दिने प्ररात्रौ रावणो राक्षसाधिपः स्वप्ने रामेण सन्दिष्ट कश्चिदागत्य वानरः कामरूप वृक्षग्रस्तोनुपश्यति इति दृष्ट्वाद्भुतम् स्वप्नम् स्वात्मन्येवानुचिन्त्य स स्वप्न कदाचित् सत्य स्यात् एवम् तत्र करोम्यहम् जान किं वा क्षरीर्विद्वा दुःखिताम् नितरामहम् करोमि दृष्ट्वा रामाय निवेदयतु वा नरः चिन्तयन् सीता समीपम् अयमधृतम् न पुराणाम् किङ्किणीनाम् श्रुत्वा किञ्चित् किञ्चितमङ्गना सीताभीता लीयमाना स्वात्मन्येव सुमध्यम अधोमुख्य शूनयन स्थिता रामार्पितान्तर रावणोऽपि तदा सीताम् आलोक्या सुमध्य मे माम् दृष्ट्वा किम् मृता स्वात्मन्येव विलीयसे रामो वनचराणां हि मध्ये तिष्ठति तानुजः कदाचित् दृश्यते कैश्चित् कदाचित् नैव दृश्यते मया तु बहुधा लोका प्रेषिता तस्य दर्शने न पश्यन्ति प्रयत्नेन वीक्षमाणा समन्ततः किं करिष्यसि रामेण निःप्रोहेण सदा त्वयी यासदालिङ्गितोऽपि समीपस्थोऽपि सर्वदा हृदये न च स्नेह त्रयीरामस्य जायते सकृतान् सर्वभोगाश्च तद्गुणान्नपि राघवे भुञ्जानोऽपि न जानाति कृतघ्नो निर्गुणो धमः तम्मानितामया साधि इदानीम् अपि न याति भक्तिः न कथं वृजेत् निस्तत्सो निर्ममो ज्ञामानि मूढ पण्डितमानवान् न राधमम् तद्विमुखम् किं करिष्यसि भामिनि तय्यतीव समासक्तम् मां भजस्व देव गन्धर्वनागाणां यक्ष किन्नर भविष्यसि नियोक्तम् यदि मां प्रतिपद्यते रावणस्य वच श्रुत्वा सीतामश्च समन्विता वाचाधोमुखी भूत्वा निधाय तृणमन्तरे राघवाद् बिभ्यता नूनं विश्वरूपं त्वया रहिते राघवाभ्यान्तं शुनि वै हरि हरिरध्वरे हृतवानसि माम्नि च तत् फलं प्राप्स्यसे च यदा राम शराघात विदारीत वपुर्भवान् दास्यसि मानुषम् रामम् गमिष्यसि यमान्तिकम् समुद्रम् शोषयित्वा वा शरे समरे रामो लक्ष्मणेन समन्वितः आगमिष्यच्च द्रक्षति राक्षसाधमय त्वां समुद्रं स बलं हत्वा नेष्यति मां पुरम् श्रुत्वा रक्षपति क्रोध जानक्या पुरुषाक्षरम् वाक्यं क्रोधसमाविष्ट खगमुद्यम्य सत्वरः हन्तुं जनकराजस्य तन ताम्रलोचन है मन्दोदरी निवार्या है पतिं हि ते त्यजेनाम् मानुसीन्दीनाम् दुःखिताम् कृपणाम् कृशाम् देव गन्धर्वनागानाम् बह्व्य सन्ति वराङ्गन तमेव वरयन्तु चै मदमत्त विलोचनः ततो ब्रवीदशग्रीवो राक्षसेर्विकृता नः यथा मे शिगा सीता भविष्यति स कामनः तथा यतध्वलितम् दरण द्विमासाभ्यन्तरे सीता यदि मे वषगा भवेत् तदा सर्वसुखोपेता राज्यं भोक्ष्यति सा मया यदि मासे द्वया दूर्ध्वं मच्छय्यां नाभिनन्दति तदा मे प्रातराशाय हत्वा कृतमानुषीम् इत्युक्त्वा प्रयो श्रीभिः राक्षस्यो जानकीमेत्य भीषयन्त्यः स्वतर्जनैः तत्र का जानीमाह यौवनम् ते एव स्वागतम् रावणेन समासाद्य सफलं तु भविष्यति अप्राचारोपेन किं विलम्बेन जानकी इदानीं चिद्त्यामङ्गम् विभज्य च पृथक् पृथक् अन्यात् खड्गमुद्यम्य जानकीं हन्तुमुद्यत अन्याकरवदना विदार्याम् अभीषयत् एवं तां भीषयन्ति सा राक्षसीर्विकृता न निवार्य वृद्धा राक्षसी वाक्यमब्रवीत् शृणुध्वं दुष्टराक्षसो मद्वाक्यं वोहितं भवेत् न भीषयत् इदानीमेव मे स्वप्ने रामे कमललोचनः अरुह्या अरोह्या रावतं शुभ्रम् लक्ष्मणेन समागतः दैवालङ्का पुरीम् सर्वाम् हत्वा रावणमाहवे आरोप्य जानकीं साङ्के स्थितो दृष्टो गमू रावणो गोमय रदे तैलाभ्यक्तो दिगम्बरः अगाहयत् पुत्र कृत्वा वदनमालिकां विभीषणसु रामस्य सन्निधौ रुच्यमानसः सेवां करोति रामस्य पादयोर्भक्तिसंयुतः सर्वथा रावणं रामो फट्वाय सकुलमञ्जस विभीषणायाधिपत्यं सत्वासीतां शुभाननाम् अंके निधाय स्वपुरीं गमिष्यति न संशय हे त्रिशतायाः वच श्रुत्वा भीता राक्षस स्त्रियः तूष्णीमासन् तत्र तत्र निद्रा है, तर्जिता राक्षसी भीता सीता भीताति विह्वला त्रातारं नाधिगच्छन्ति दुःखेन परिमूर्छिता अश्रुभिः पूर्णनयनाय चिन्तयन्तीमब्रवीत् प्रभाते भक्षयिष्यन्ति राक्षस्यो मान संशय इदानीमेव मरणम् केनोपायेन मे भवेत् एवं सुदुःखेन परिपृता सा विमुक्तकण्ठ रुदतिं चिराय आलम्ब्य शाखाय कुत निश्चयमत न जानति हि कश्चिदुपायमङ्गना इति श्रीमदभ्यास रामायणयो मामैजसंवादे सुन्दरकाण्डे द्वितीय सर्ग हे श्रीसीतारामचन्द्रार्पणमस्तु